नारदपुराणं पूर्वार्थम् अध्यायम् एटित्री शौनक उवाच महाभागः जगदुद्धारकारकं महातन्त्रविधानं नः कुमारोक्तं त्वयोदितम् अलभ्यमे दत्तन्त्रेषु पुराणेषु अपि यदि यदि तमस्तभ्यं यदि तमस्मभ्यं त्वयादि करुणात्मना नारदो भगवान्सूदलोकोद्धारणतत्परः भूयपप्रच्च किं साधो कुमारं विदुषाम्बरं सूद उवाच श्रुत्वा स नारदो विप्राः युग्मनामसहस्रकं सनकुमारमप्याहप्रणम्यज्ञानिनां वरं नारद उवाच ब्रह्मंस्त्वया समाख्यादा विध यस्तन्द्रचोदिताः तत्रापि कृष्णमन्त्राणां वैभवं ह्युदिदम् महद या तत्र राधिका देवी सर्वाद्या समुदाहृदा तस्या अंशावतराणां चरितं मन्त्रपूर्वकं तत्रोक्तं वद सर्वज्ञत्वामहं शरणं शक्ते शक्तेस्तन्त्राण्यनेकानि शिवोक्तानि मुनीश्वर यानि तत्सारमुद्धृत्य साकल्ये नाभिधेहिनः तच्छ्रुत्वा वचनं तस्य नारदस्य महात्मनः सनत्कुमारप्रोवाच स्मृत्वा राधा पदाम्बुजम् सनत्कुमार उवाच शृणु नारदवक्ष्यामि राधां शानाम् समुद्भवं शक्रीणां परमाश्चर्यम् मन्त्रसाधनपूर्वकम् यादुराधा मया प्रोक्ता कृष्णार्थाङ्गसमुद्भवा लोक गोलोकवासिनी साधु नित्या कृष्णसहायिनी तेजोमण्डलमध्यस्था दृश्यादृश्यस्वरूपिणी कदाचित्तुतया सार्धं स्थितस्य मुनिसत्तम कृष्णस्य वामा जादो नारायणस्वय राधिकाया महालक्ष्मीबूव तथ कृषो महालक्ष्मी दत्वा नारायणा च वैकुंठे स्थयामास शलनकर्मि अध गोलोकनाथ से लोमना विवरद मुने जाुश्चा संख्य गोपालस्ेजस वयसा सह पार्षदा पार्षद विभोलोकूपे बभू गुर्गोपक राधा तुल्य सर्वतश्च राधा दास्यप्रियं वदाः एतस्मिन्नन्तरे विप्रसहसा कृष्णदेहतः आविर्बभूव सा दुर्गा विष्णुमाया सनातनी देवीनां बीजरूपां च मूलप्रकृतिरीश्वरी परिपूर्णतमा तेजस्वरूपा त्रिगुणात्मिका सहस्रभुजसंयुक्ता नाना शस्त्रा यादु संसारवृक्षस्य बीजारूपा सनातनी रत्नसिंहासनं तस्यै प्रददौ राधिकेश्वरः एतस्मिन्नन्तरे तत्र शस्त्रीकस्तु चतुर्मुखः ज्ञानिनां प्रवर श्रीमान् पुमानोङ्कारमुच्चरन् कमण्डलुधरोजातस्तपस्वी नाभितो हरेः सदुःसंस्थूय सर्वेषं सावित्र्या भार्यया सह निशसा दासने रम्ये विभोस्तस्याज्ञया मुने अधकृष्णो कृष्णो महाभागद्विधारूपो बभूवः वामार्थाङ्गो महादेवो दक्षार्धो गोपिकापदिः पञ्चवक्त्रस्त्रिनेत्रोऽसौ वामार्थागो गो मुनीश्वरः स्तुत्वा कृष्णं समाज्ञप्तो निशसादहरेः पुरः अथ कृष्णश्च दुर्वक्त्रं प्राक्सृष्टिं कुरु प्रभो सत्यलोके स्थितो नित्यङ्गच्छ मां स्मर सर्वदा एवमुक्तस्तु हरिणा प्रणम्य जगदीश्वरं जगामभार्यया साकं सदुसृष्टिं करोति वै पितास्माकं मुनिःश्रेष्ठमानस्यीं कल्पदैहिकीं ततः पश्चात्पञ्चवक्त्रं कृष्णं प्राह महामदे दुर्गां गृहाणविश्वेष शिवलोके तपश्चर यावत्सृष्टिस्तदं देदु लोकान् संहर सर्वतः सोऽपि कृष्णं नमस्तृत्य शिवलोकं जगामः तदकालान्तरे ब्रह्मन् कृष्णस्य परमात्मनः वक्त्रात् सरस्वती जादा वीणापुस्तकधारिणी मादिदेश भगवान् वैकुण्ठं गच्छ मानदे समीपे तिष्टत्वं चतुर्भुजसमाश्रया सापि कृष्णं नमस्कृत्य गदा नारायणान्तिकम् एवं पञ्चविधा साराधा साराधासृष्टिकारणम् आसां पूर्णस्वरूपाणाम् मन्त्रध्यानार्चनादिकं वदामि शृणु विप्रेन्द्रं लोकानां सिद्धिदायकं तारक्रियायुप्रदिष्टा प्रीत्याढ्या तदपरं। ततः परम् ज्ञानामृदाक्षुधा युक्ता वक्निजायान्तको वक्निजायान्तकतो मनुहु। सुतपास्तु ऋषिच्छन्दो गायत्री देवता मनोः राधिका प्रणवो बीजं स्वाहा शक्तिरुदाहृदा षडक्षरैः षडङ्गानि कुर्याद्विन्दुविभूषितैः पदोऽध्यायन् स्वहृदये राधिकां कृष्णभामिनी श्वेदचम्पकवर्णाभां कोडिचन्द्रसमप्रभां शरत्पार्वणचन्द्रास्यां नीलेन्दीवरलोचनां शुश्रोणीं सुनितम्भां च पक्वबिम्बादराम्बरां मुक्ताकुन्दाभदशनां वह्नि शुद्धां शुकान्विताम् रत्नकेयूरवलयहारकुण्डलशोभिताम् गोपीभिः सुप्रियाभिश्च सेवितां श्वेदचामरैः रासमण्डलमध्यस्ताम् रत्नसिंहासनस्थिताम् ध्यात्वा पुष्पाञ्जलिं क्षिप्त्वा पूजयेदुपचारकैः लक्ष लक्षषट्कं जपेन्मन्द्रं तद्दशांशं पुनेतिलैः आज्याकृतैर्मातृकापीठे पूजा चावरणैः सह षड्कोणेषु षडङ्गानि तद्बाह्येष्ठदले यजेत मालावतीं माधवीं च रत्नमालां सुशीलिकाम् तदशशिकलां पारिजाताम् पद्मावतीं तथा सुन्दरीं चक्रमात् प्राच्यां दिक् वि दिक्षुततो बहिः इन्द्राद्यां सायुधानिष्ठ्वा विनियोगांस्तु साधयेद राधाकृष्णप्रिया रासेश्वरी गोपीगणाधिपा निर्गुणा कृष्णपूज्या च मूलप्रकृतिरीश्वरी सर्वेश्वरी सर्वपूज्या वैराजजननी तथा पूर्वाद्याशासु रक्षन्तु पान्तु मां सर्वतः सदा त्वं देवी जगदा मादाविष्णुमाया सनातनी कृष्ण मायादिदेवी च कृष्णप्राणाधिके शुभे कृष्णभक्तिप्रदे रादे नमस्ते मङ्गलप्रदे यदि सम्प्रार्थ्य सर्वेशीं स्तुत्वा हृदि विसर्जयेद् एवं यो भजते राधां सर्वाद्यां सर्वमंगलां भुक्वेह भोगानखिलां सौन्दे गोलोकमाप्नुयाद अध तुभ्यं महालक्ष्म्या विधानं यदा राधनदो भूया साधको मान। लक्ष्मी माया भुक्तिमुक्तिमान् पूर्वा कमलवासिनी केन्दावह्निप्रियान्तोयं मन्द्रकल्पद्रुमःपरः ऋषिर्नारायणश्चास्य छन्दो हि जगती तथा देवतादुमहालक्ष्मीर्द्वि द्विवर्णैः षडङ्गकम् श्वेदचम्बकवर्णाभाम् रत्नभूषणभूषिताम् येषास्य प्रसन्नास्याम् भक्तानुग्रहकादराम् बिभ्रतीम् रत्नमालाम् च कोडिचन्द्रसमप्रभाम् पायसेन जपे जुहुयादेधि देवह्नौ श्रीधृकाष्ठैः समर्चयेद् नवशक्तियुदे पीडे ह्यङ्गैरावरणैः सह विभूतिरुन्नतिः कान्धिसृष्टिकीर्तिश्च सन्नधिः व्याष्टिरुत्कृष्टिरुद्धिश्च संप्रोक्ता नवशक्तयः अत्रा वाह्यतमूलेन मूर्तिं सङ्कल्प्य साधकः षड्कोणेषु षडङ्गानि दक्षिणे गजाननं वामे कुसुमधन्वानं वसुपत्रे तदो यजेद ॐ मां श्रीं भारतीं दुर्गां धरणीं देवी देवीमुषां च पूर्वादौ दिग्विदिक्षुक्रमेण हि जह्नुसूर्यसुते पूज्ये पादप्रक्षालनोद्यते शङ्खपद्मनिधिपूज्यौ पार्श्वयोर्घृतचामरौ घृतादपत्रं वरुणं पूजयेत्पश्चिमे ततः सम्पूज्य राशीन् परिधो यथास्थानं नवग्रहान् चतुर्दन्तैरावदादीन् दिग्विदिक्षु तदोर्चयेद् तद्बहिर्लोकपालांश्च ततप्राणिश्च तद्बहिः दूर्वाभिराज्यसिक्दाभिर्जुहूयायुषे नरः गुढोचीमाज्य संसिक्दां जुहूयात्सप्तवात्सरम् अष्टोत्तरसहस्रं यः स जीवे शरदां शतं कुत्वा तिलान् कृदाभ्यकृदान् दीर्घमायुष्यमाप्नुयाद आरभ्यार्कदिनम् अम्रीदशाखं कृतसंप्लुतः जुहुयादर्कसमिधशरीरारोग्यसिद्ध्यये शालिभिर्जुह्वो नित्यमष्टोत्तरसहस्रकम् अजिरादेवमहदि लक्ष्मीसंजायदे ध्रुवम् उषा जा जीनालिकेरजोभिर्घृतमिसृतैः कुने दष्टोत्तरशतं पायसाशीदु नित्यशः मण्डलाजायदे सोऽपि कुबेर इव मानवः भविषा गुडमिश्रेण को मातो ह्यन्नवान् जपापुष्पाणि जुहूयादष्टोत्तरसहस्रकं ताम्बूलरसम्मिश्रं तद्भस्मतिलकं चरेदं चतुर्नामपि वर्णानां मोहनाय द्विजोत्तमः एवं यो भजते लक्ष्मीं साध केन्द्रो मुनीश्वर जायन्ते महालक्ष्मीः प्रसीदति देहान्ते दे वैष्णवं धाम लभदे नात्र संशयः यातु दुर्गाद्वित्यश्रेष्ठ शिवलोकं गता सती सा शिवाज्ञामनुप्राप्य दिव्यलोकं विनिर्ममे देवी लोकेति विख्यातं सर्वलोकविलक्षणं तत्र स्थिता जगन्मादा तपो नियममास्थिता विविधान् स्वावतारान् हितृकाले कुरुते निशम् मायाधिकाह्लादिनी युक्चन्द्राढ्या सर्गिणी पुनः प्रतिष्ठा साहिता सहिता पुनः ज्ञानामृता वह्निजायां तस्ताराग्यो मनुर्मदः ऋषिस्य ध्वामदेवोऽस्य छन्दोर्गायत्रमीदितं देवता जगदा मादिर्दुर्गा दुर्गदिनाशिनी ताराध्येकैकवर्णेन हृदियादित्रयं मदं त्रिभिर्वर्मे क्षणद्वाभ्यां सर्वैरस्त्रमुदीरितं महामरकदप्रख्यां सहस्रभुजमण्डिताम् नानाशस्त्राणि दधीं त्रिनेत्रां शशिशेखरां कङ्कणाङ्गदहराढ्यां क्वणनूपुरकान्विता किरीडकुण्डलधरां दुर्गं देवीं विचिन्तयेत् वसुलक्षं जपेन्मन्त्रं तिलैः स मधुरैर्हुनेत्र पयोऽम् दसहस्रं नवपद्मात्मके यजेद् प्रभामयाजया सूक्ष्मा विशुद्धानं दिनी पुनः सुप्रभाविजया सर्वसिद्धिदा पीठशक्तयः अद्भिर्ह्रस्वत्रयक्लीबरहृदय पूजयेदिमः प्रणवो वज्रनखदंष्ट्रायुधाय महापदाद सिंहाय वर्मास्त्रं हृञ्ज प्रोक्तसिंहमनुर्मुने दद्यादासनमेदेन मूर्तिं मूलेन कल्पयेद् अङ्गावृत्तिं पुराभ्यार्च्य शीपत्रेषु पूजयेद् जया च विजया कीर्तिप्रीति प्रभा पुनः श्रद्धा मेधा श्रुतिश्चैव स्वनामाद्यक्षराधिकाः पत्राग्रेष्वर्चये दष्टा वायुधानि यथा क्रमात् शङ्खचक्रगदा खङ्गपाशाङ्कुशः शरान्धनुः लोकेश्वरांस्तदो बाह्ये तेषामस्त्राण्यनन्तरम् युद्धं जपादिभिर्मन्त्री मन्त्रे सिद्धे विधानविदकुल्याप्रयोगानमुना विधान यथा स्वस्वमनीषितान् प्रदिष्टाप्यविधानेन कलशान्नवशोभनान् रत्नहेमादिसंयुक्तान् कडेषु नव सुस्थितान् मध्यस्थे पूजये देवीमिदरेषु जयाधिकाः सम्पूज्य गन्धपुष्पाद्यैरभिषिञ्चेन्नराधिपम् राजा विजयदे शत्रून्योऽधिको विजयश्रियं प्राप्नो त्रोगो दीर्घायुः सर्वव्याधिविवर्जितः वन्द्याभिषिक्ता विधिना लभदे तनयं वरं मन्द्रेणानेन सं जप्तमाज्यं क्षुद्रग्रहापहं गर्भिणीनां विशेषेण जत्तम भस्माधिकं तथा गृम्भस्वासेदुकृष्णस्य प्रविष्टेराधिकामुखम् यादुदेवी समुद्भूता वीणा पुस्तकधारिणी तस्याविधानं विप्रेन्द्रशृणो लोकोपकारकं प्रणवो वाग्भवं माया श्रीकामः शक्तिरीरिदा सरस्वती चतुर्ध्यन्ता स्वाहाो द्वादशाक्षरः मनोनारायणऋषिर्विराच्छन्दः समीरितम् महासरस्वती चास्य देवतापरिकीर्तिता वाग्भवेन षडङ्गानि कृत्वा वर्णा न्यसेद्बुधः ब्रह्मरन्ध्रे न्यसेत् तारं न्यसेद भ्रूमध्यगां न्यसेद् मुखनाशादिकर्णेषु गुदेषु श्रीमुखार्णकान् तदो वाग्देवतां ध्यायेद्वीणा पुस्तकधारिणी पर्पूरकुन्दधवलाम् पूर्णचन्द्रोज्ज्वलाननाम् हंसाधिरूढाम् भालेन्दुदिव्यालङ्कारशोभिताम् जपे द्वादशलक्षाणि तत्सहस्रम् सिदाम्बुजैः नागचम्बकपुष्पैर्वाजुहुयात् साधकोत्तमः मातृकोक्तो यजेत्पीठे वक्ष्य माणक्रमेण तां वर्णाब्जेनासनं दद्यान्मूर्तिं मूलेन कल्पयेत् देव्या दक्षिणदपूज्या संस्कृत वाङ्मयी शुभा प्राकृता वामदपूज्या वाङ्मयी सर्वसिद्धिदा पूर्वमङ्कानि षट्कोणे प्रज्ञाद्या प्रयजेद्बहिः प्रज्ञा मेधा श्रुतिशक्तिस्मृतिर्वागीश्वरी मतिः स्वस्ति चेदिसमाख्याता ब्रह्माद्यास्तदनन्तरं लोकेशार्चयेद्भूयस्ततस्त्राणि च तद्बहिः एवं सम्पूज्य वाग्देवीं साक्षाद् वाग्वल्लभो भवेद् ब्रह्मचर्यरथशुद्धशुद्धदन्दनकादिकः संस्मरन् सर्ववनिता सततं कवित्वं लभते धीमान् मा पीत्वा तन्मन्त्रिदं तोयं सहस्रं प्रत्यहं मुने महाकविर्भवेन्मन्त्री वत्सरेण न संशयः उरो मात्रोदगे स्थित्वा ध्यायन् मार्तण्डमण्डले स्थितां देवीं प्रतिदिनं त्रिसहस्रं जपेन्मनुं दभदे मण्डलासिद्धिं वाचामप्रतिमाम्भुवि सुमुयान्मधुरोक्षितदुदाश प्राधदिवाक्पदे राजूत प्रसून सत् जुहुया कविव लभेद अध प्रवक्षे विप्रेन्द्र सात्री ब्रह्मण प्रििया यां समाराध्य ससृजे ब्रह्म लोकांश्चराचरान् लक्ष्मीमाया कामपूर्वसावित्री समन्विता स्वाहान्दो मनुराख्याधसावित्र्या वसुवर्णवान् ऋषिर्ब्रह्मस्य गायत्री चन्दप्रोक्तं च देवता सावित्री सर्वदेवानां सावित्री कृदन्धिकै ब्रह्मविष्णुरुद्रेश्वर सदा शिवैः सर्वात्मना सर्वात्मनाचंगे मे योक्तयि रङ्गानाम् कल्पनम् मदम् तप्तकाञ्चनवर्णाभाम् ज्वलन्तीम् ब्रह्मतेजसा ग्रीष्ममध्याह्नमार्ताण्डसहस्रसमविग्रहाम् ये श्रद्धास्य प्रसन्नास्याम् रत्नभूषणभूषितम् ुद्धां शुकाधानां भक्तानुग्रहकातरां सुखदां मुक्तिदां चैव सर्वसम्वत्प्रदां शिवां वेदबीजस्वरूपां च ध्यायेद्वेदप्रसूं सदीं ध्यात्वैवं मण्डले विद्वन्त्रिकोणोज्ज्वलकर्णिके सौरे पीठे यजे देवीं दीप्तादि नवशत्रिभिः मूलमन्त्रेण क्लरुप्ताया मूर्तौ देवीं प्रपूजयेदे कोणेषु त्रिषु सम्पूज्या बा हृयाद्या शक्रयो बहिः आदित्याद्यास्तदपूज्या वृषादिसहिताक्रमाद तद षडङ्गानभ्यर्च्य केसरेषु यथाविधि प्रह्लादिनीं प्रभां पश्चान्नित्यां विश्वम्भरां पुनः विलासिनी प्रभावत्यौ जयां शान्तां यजेत् पुनः दुर्गा दुर्गासरस्वत्यौ विद्यारूपाम् ततः विशालसम् नीतामीषाम् व्यापिनीं विमलां यजेद तमोपहारिणीं सूक्ष्मां विश्वयोनिं जयावहां पद्मालयां परां शोभां ब्रह्मरूपां तदोऽर्चयेद् बाह्ययाद्याश्च बाह्ये पूजयेत् प्रोक्तलक्षणाः ततोऽभ्यर्चयेद् ग्रहान् बाह्ये शत्राध्यानयुधैः सह देवी युद्धमावरणैर्देविदश्यभि परिपूजयेद् दे। अष्टलक्षं जपेन्मन्त्रं तत्सहस्रं पुनेतिलैः सर्वपापो विनिर्मुक्तो दीर्घमायुस्स विन्ददि अरुणाब्जयिस्त्रिमध्वाक्रैर्ज्युः यादयुधं तदः महालक्ष्मीर्भवे तस्य षण्मासान्नात्र संशयः ब्रह्म विभृक्षप्रसूनयिस्तु जुहुयात् बाह्यते जस्ये बहुना किमिभोक्तेन यथावत् साधिता सति साधकानामियं विद्या भवेत् कामद्भुना मुने अधदे सम्प्रवक्ष्यामि रहस्यं परमद्भुतं सवित्रीपञ्चरं नाम सर्वरक्षाकरं ऋणम् व्योम केशार्लकासं सुकिरीडविराजितां मेघभ्रुकुडिलाक्रान्तां विधिविष्णुशिवाननां गुरुभार्गवकर्णान्तां सोमसूर्याग्निलोचनां इडा पिङ्कलिका सूक्ष्मा वायुनाशापुडान्विताम् ध्या द्विजोष्टपुडितां लशद्वागुपजिह्विकां सन्ध्या सूर्यमणिग्रीवामरुद्बाहुसमन्वितान् पर्जन्य हृदया सक्तां वस्वाख्यप्रतिमण्डलम् आकाशोदरविभ्रान्तां नाभ्यवान्दरवीथिकाम् प्रजापत्याख्यजखनां कडीन्द्राणि समाश्रिताम् ऊर्वोर्मलयमेरुभ्यां शोभमानां सरिध्वरां सुजानो जहुकुशिकां वैश्वदेवाख्यसंज्ञिकां पादाङ्क्रिनखलोमाख्यभूनागद्रुमलक्षितां ग्रहराह्यार्क्षयोगादिमूर्तावयवसंज्ञकाम् मासर्तु स्थितिमासर्तुपक्षाख्यै सङ्केतनिमिषात्मिकं मायाकल्पितवैचित्र्य सन्ध्याख्यच्छदनामृतां ज्वलकालनलप्रख्यों तडित्कीडिसमप्रभां कोडिसूर्यप्रदीपाश्यां शशिकोटि सुशीतलां सुधामण्डलमध्यस्थाम् सान्द्रानन्दामृतात्मिकां वा गदितां मनोगर्म्या वरदां वेदमादरं चराचरमयीं ब्रह्माक्षर समन्विताम् ज्ञात्वा स्वात्मा विभेदेन सावित्री पञ्चरं न्यसेद पञ्चरस्य ऋषिसोऽहं छन्दो विकृतिरुच्यते देवता च परो हंस परब्रह्मादिदेवता कर्मार्थकाममोक्षान्त्यै विनियोग उदाहृतः षडङ्गदेवता मन्त्रैरङ्गन्यासं समाचरेद त्रिधा मूलेन मेधावी व्यापकं हि समाचरेद दे। पूर्वोक्तं देवातां ध्याये साकारां गुणसंयुतां त्रिपदहरिदा पूर्वमुखी ब्रह्मास्त्रसंज्ञिका चतुर्विंशति तत्त्वाढ्या पादुप्राची दिशं मम चतुष्पदा ब्रह्मदण्डा ब्रह्मणि दक्षिणानना षड्विंश तत्त्वसंयुक्ता पादु मे दक्षिणां दिशं प्रत्यङ्मुखी पञ्चपदी पञ्चाशत्तत्त्वरूपिणी पादु प्रतीची मम ब्रह्म शिरोङ्किता सौम्या सी ब्रह्म साध्र्वांगीरसात्मका उदीची षट्पदा पद ष्टी तत्वत्मका पंचाश्वर्णरचिता नवपदा शरी व्योम संपद मे वोर्धशिरो वेदात संस्था विद्युन्नी ब्रह्मसंध्या मृगारूढा चतुर्भुजा चापेषु चर्मासि धरा पादुमे दिश्यं। दिशम् कुमारी गायत्री रक्ताङ्गी हंसवाहिनी बिभ्रकमण्डलुं चाक्षं स्रुवस्रुवौ पादुनैहृतिं शुक्लवर्णाजसावित्रीयुवती वृषवाकन कपालशूल का क्षश्रद्धारिणी पादुवायवीं श्याम सरस्वती वृद्धा वैष्णवी गरुडासना शङ्खचक्राभयकरा पादुशैवीं दिशं मम चतुर्भुजा देवमादा गौराङ्गी सिंहवाहन वराभयखङ्गभुज पात्वधरां दिशम् तत्तत्पार्श्वे स्थिता स्वस्ववाहनायुधभूषणः स्वस्वदिक्षुस्थिता पादं ग्रहशाक्रियाङ्गसंयुताः मन्त्राधिदेवतारूपामुद्राधिष्ठादृदेवताः व्यापकत्वेन पां त्वस्मानापादतलमस्तकम् इदं ते कथितं सत्यं सावित्री सन्ध्य यो प्रत्यगं भक्त्या जपकाले विशेषतः पठनीयं प्रयत्नेन भुक्तिं मुक्तिं समिच्छदा भूदिदा भुवना वाणी महावसुमतीमहि हिरण्यजननी नन्दा सविसर्गा तपस्विनी यशस्विनी सती सत्या वेदविच्छिन्मयी शुभा विश्वातुर्यावरेण्या च यमुनाभुवा मोदादेवी वरिष्ठा च धीष्टशान्धिर्मदी मही धिषणायोगिनी युक्ता नदी प्रज्ञा प्रचोदनी दया यामिनी पद्मा रोहिणी रमणी जया सेनामुखि सा ममयी बगला दोषवर्जिता मायाप्रज्ञापरादोग्ध्री मानिनी पोषिणी क्रिया ज्योत्स्नातीर्थमयी रम्या सौम्या मृदमया तथा ब्राह्मी हैमी भुजङ्गीज वशिनी सुन्दरी वनी ओङ्कारहसिनी सर्वासुधा सा षड्गुणावधि माया स्वधा रमातन्वी रिभोघ्नि रे रक्षणी रक्षणी सती हैमितारा विधुगतिर्विषघ्नी च वरानना अमरातीर्थदा दीक्षा दुर्धर्षा रोगपारिणी नानापापहृश्यं सघ्नी षट्पदी वज्रिणीरिणी योगिनी वमला सत्य अबलाबलदा जया गोमदीजाग्नवी रजावी तपनी जादवेदसा अचिरा वृष्टिता ज्ञेया ऋततन्द्रा हृतात्मिका सर्वतामदुग्धा सौम्या भावा द्विपदाय च दुष्पदा त्रिपदाय च अष्टापदी नवपदि सहस्राक्षाक्षरात्मिका अष्टोत्तरशतं नाम सावित्रिया यः पठ्येन्नरः स चिरायुस्सुखी पुत्री विजयी विनयी भवेद यदते कथितं विप्रपञ्चप्रकृतिलक्षणं मन्त्राराधनपूर्वं च विश्वकामप्रपूरणम् इति श्रीबृहन्नारदीयपुराणे पूर्वभागे बृहदुपाख्याने तृतीयपादे पञ्चप्रकृतिमन्त्रादिनिरूपणं नाम त्र्याशीतितमोऽध्यायः ओम्